गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टी नैन् रुद्र उवाच पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन सूर्यस्य विष्णुरूपस्य भुक्तिमुक्तिप्रदायकं वासुदेव उवाच शृणु सूर्यस्य रुद्रत्वं पुनर्वक्ष्यामि पूजनम् ओम् उच्चै श्रवसे नमः ॐ अरुणाय नमः ॐ दण्डिने नमः ॐ पिङ्गलाय नमः ए द्वारे वै। ये वै येप्यर्मन्त्रैर्वृषध्वज ॐ अम् प्रभूताय नमः इमं तु पूजय येन्मध्ये प्रभूतामलसञ्ज्ञाकम् अं विमलाय नमः ॐ अं साराय नमः ॐ अम् आधाराय नमः ॐ अं परममुखाय नमः इत्ये इत्याग्नेयादिकोणयेषु पूज्या वै विमलादयः ॐ पद्माय नमः ॐ कर्णिकाय नमः मह्येदुपूजये रुद्र पूर्वादिषु तथैव च दीप्ताध्यापूजयेन्मध्ये पूजयेत्सर्वतोमुखी हि ॐ वां दीप्तायै नमः ॐ वीं सूक्ष्मायै नमः ॐ वूं ह्रूं भद्रायै नमः ॐ वैं जयायै नमः ॐ वौं विभूत्यै नमः ॐ वं अघोरायै नमः ॐ वं वैद्युदायै नमः ॐ वक् विजयायै नमः ॐ सर्वतोमुख्यै नमः ॐ अर्कासनाय नमः ॐ ह्रां सूर्यमूर्तये नमः एतास्तु पूजयेन्मध्ये ह्रन् मन्त्राञ्चृणुशङ्कर ॐ हं सं खं ककोल्कायक्रां क्रीं स स्वाहा सूर्यमूर्तये नमः अनेनावासनम् कुर्यास्तापनम् सन्निधापनम् सन्निरोपणमन्त्रेण सकलीकरणम् तथा मुद्रायादर्शनम् रुद्रमूलमन्त्रेण वाहर त्यजोरूपं रक्तवर्णं सितपद्मोपरि स्थितम् एकचक्ररद्धारूढम् द्विबाहुम् धृतपङ्कजम् एवम् ध्यायेत् सदा सूर्यं मूलमन्त्रम् शृणुष्व च ॐ ह्रां ह्रीं स्वसूर्याय नमः वारत्रयम् पद्ममुद्रां बिम्बमुद्रां च दर्शयेद् ृदयाय नमः ॐ अर्काय शिरसे स्वाहा ॐ अह भूर्भुवः स्वः ज्वालिनिशिकायैव षड् ॐ हुं कवचाय हुं ॐ भां नेत्राभ्यां वौषट् ॐ वह अस्त्राय हडिदि। आग्नेय्यामथ वैशान्यां नैऋत्यामर्चयेद् र भुद्यादिः वायव्यां नेत्रं चान्धप्रपूजयेद द्विस्वस्त्र दिस्वस्त्रं पूजये द्रुद्रसोमं तु स्वेदवर्णकम् दले पूर्वेऽर्चये रुद्रबुधं दक्षिणे पूज्यये गुरुं व्यजेद पश्चिमे चैव उत्तरे भार्गवंशिधम् रकृ मङ्गारकं चैव आग्नेये पूजयेद्धर शनैश्चरं कृष्णवर्णं नैरृत्यां दिशि पूजयेद राहुं वायव्यदेशे धुनन्द्या वर्तनिभिंहर ऐशान्यां धूम्रवर्णं तु केतुं सम्परिपूजयेद येभिर्मन्द्रैर्महादेवतशृणुष्व ये च शङ्कर सों सोमाय नमः ॐ भुं बुधाय नमः ॐ भृं बृहस्पतये नमः ॐ भं भार्गवाय नमः ओम् अम् अङ्गारकाय नमः ॐ शं शनैश्चराय नमः ॐ रं राघवे नमः ॐ कं केतवे नमः पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्याय शङ्कर नैवेद्यान् देधेनुमुद्रां दर्शयेत् साधकोत्तमः जत्वा चाष्टसहस्रं तु तच्च तस्मै समर्पयेद् ऐशान्यां दिशि भूदेश तेजश्चण्डं तु पूजयेद ॐ तेजश्चण्डाय हुं फट् स्वाधा स्वथा स्वाहा पौषडनिर्माल्यं चार्पये तस्मै ह्यर्ख्यं दद्यात्तदोहर तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितं गन्धोदकेन सम्मिश्रं पुष्पधूपसमन्वितं कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गदः दर्घ्यं तु सूर्यायस्मिन् मन्द्रेण वृषध्वज गणं गुरून् प्रपूज्याथ सर्वान् देवानन् प्रपूजयेद ॐ गङ्गणपतये नमः ॐ अं गुरुभ्यो नमः सूर्यस्य पथिता पूजा कृत्वैदां विष्णुलोकभाक इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमाशाख्ये आचारकांडे सूरयाचन प्रकार नामकोनच्वांशोध्याय ओ